आकाशवाणी श्रयन्तां प्रधानमन्त्री परमानन्द झा प्रधानमन्त्री प्रधानमन्त्री प्रधानमन्त्री श्रीनरेन्द्र मोदी प्रावोचत् यत् जनानां हृत्स् संशय बीजाधायका राष्ट्रविभाजका देशेनैतेन सदैव दृढतया प्रत्युत्तरिता सन्ति देशे कोविड संक्रमणात् स्वस्थीभूतानां जनानां प्रतिशतता सम्प्रति प्रवर्ध्य नवति परिमिता संवृत्तास्ति प्रशासनं ब्रिदानीं वर्षर्त् शस्यानां समय दर्ष धान्यानां क्रयणं पूर्णगत्या प्रवर्तत नवरात्र व्यापिन्या श्री परिसमाप्तो विजयादशमी पर्व दर्शस्य विभिन्न भागेष् सोल्लासं च अपि च आईपीएल् क्रिकेट् स्पर्धा मालिकायां ह्यो दुबई नगरे समायोजिते द्वन्वे, चेन्नई दलेन बेंगलूरु बृन्दम् अष्टभिः क्रीडकैः पराजितम् प्रधानमन्त्री प्रधानमन्त्री प्रधानमन्त्री श्रीनरेन्द्रमोदी प्रावोचत् यत् जनानां हृत्स् संशय बीजाधायका राष्ट्रविभाजका देशेनैतेन सदैव दृढतया प्रत्युत्तरिता गतदिवसे आकाशवाण्या मन की बात इति मासिक कार्यक्रमस्य सद्यस्तने अंके प्रधानमन्त्रिणा स्वीयं मनोगतं प्रकाशयता देशवासिभ्यः एकं भारतं श्रेष्ठं भारतम् इत्येष सन्देश व्यक्तीकृतः व्याहतं यत् देशवासिन प्रशासन द्वारा राष्ट्रियैकताभियानस्य अन्तर्गतं समन्ष्ठितान् प्रयासान् भा, एक भारत गॉव डॉट इन आंतर्जा के सांप्रिके उत्सवम साम वस्त क्रयण क्रम खादी वस्दिभ्य स्थानभ्य प्राथम्य प्रदू देश सहूता विजयदशमी उपलक्ष्य भारतने हादसा शुभाशिया प्रकाशयन श्री मोदी न्यदीदराव उपरी सत्यस्य विजयेन सहैव संकटोपरि धैर्यस्यापि विजयं व्यंजयति तेन कोविड संक्रमणकालेऽस्मिन् यथोचितं संयम जातम् आश्रयित् जनाः पुनरेकवारं समागृहीताः कोविड कोविड संक्रमण देशे कोविड संक्रमणात् स्वस्थीभूतानां जनानां प्रतिशतता सम्प्रति प्रवर्ध्य नवतिपरिमिता संवृत्तास्ति रोगादस्मात् अद्यावधि देश पादोनैकसप्तति लक्षाधिका जना हा। स्वस्थतां गता पादोन सप्तलक्ष प्रायाश्च चिकित्साधीना सूच्यन्ते स्वास्थ्यमन्त्रालयो विज्ञापयति यत् विगतास् चत्र्विशतिहोरास् भारते अष्ट सप्तत्यधिका पञ्चशतं जना प्राणियुक्ता मन्त्रालयस्यानुसारि सम्प्रति अशेष देशे सहस्रद्वयाधिका प्रयोगशाला कोविड परीक्षणायन्ते प्रशासनं ब्रते यदिदानीं वर्षतु शस्यानां समये देशे धान्यानां क्रयणं पूर्णगत्या प्रवर्तत अद्यावधि कृषि मन्त्रालयेन न्यूनतम समर्थन मूल्येष् संकलय्य पादोनैकलक्ष टन परिमितानि धान्यानि कृषकेभ्य क्रीतानि मन्त्रालय स्पष्टमकरोत् यदेष क्रीतो धान्यराशि विगतवर्षापेक्षया प्रतिशतं त्रयोविंशत्यंश मित्या समधिको विद्यते नवरात्रव नवरात्र व्यापिन्या श्री परिसमाप्तो विजयदशमीति नाम्ना ख्यातः दशहरोत्सव गतसायं देशस्य विभिन्नेष् भागेषु श्रद्धया उल्लासेन च समं देशस्य कतिपयेष् भागेषु एष भगवता श्रीरामचन्द्रेण दशाननं विरुध्यते सम्प्राप्तस्य ऐतिहासिक विजयस्य स्मृतौ चिरादनुवर्तमान एष उत्सव अधर्मस्य असत्यस्य अभद्रस्य च उपरि क्रमशो धर्मस्य सत्यस्य भद्रस्य च भव्य विजयं व्यञ्जयति अवसरेऽस्मिन् राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च देशवासिभ्यो नैकशः श्भाशय संदे, संदेशा प्रकाशिता विंशति प्रतिविंशति क्षेप चक्राणां आईपीएल् क्रिकेट स्पर्धा गतदिवसे दुबई नगरे समायोजिते द्वन्द्वे चेन्नई सुपर किंग्स दलेन रॉयल चैलेंजर्स बैंगलूरवृन्दम् अष्टाभि क्रीडकै पराजितम् इति